Oh um. वृत्त्वाय वज्रमुदयच्छत्स वृत्रो वज्रान्मा मे तत्ते प्रदाः स्यामेति तस्मा जीति सेन्मा मे प्रहानस्ति वाजिदम् तत्ते प्रदास्यामीति तस्मा प्रायच्छत्थ निर्मायम् भोतमह न जज्ञो हि तस्य मायासेद्योक्षो विह्यत इन्द्रियमेव तद्वे यजमान प्राजु यस्य इन्द्राय निर्गृह्णाति चक्षर्वादेतद्यज्ञस्य यदुक्षस्तस्मादुक्षगं हुतगं सोमां वायन्ति तस्मादात्मा चक्षुरण्वेति तस्मादेकञन्तं बहवो नुजन्ति तस्मादेको बहूनां भद्रो भवति तस्मादेको बह्वी जालिन्दते यदि कामये ध्वर्युवात्मानं यज्ञयशसेनाहार्पये नमित्यं पराह वनेजन्तः विर्धानन्त तिष्ठन् नवन यदात्मानमेव यज्ञयशसेनार्पयद् यदि कामज तयजमानं यज्ञयशसेनाहार्पये यमित्यं परा सदोहविर्धाने तिष्ठन् नव न ये यजमानमेव सत आल्पन सामनापय युर्वायैतद्यज्ञस्य य ध्रुव उत्तमो ग्रहाणाम् गृह्यते तस्मादायुः प्राणानामुत्तमम् मूर्धानम् दिवो हरतिम् पृथिव्यादित्याहमूर्धानमेवेनकुम् समानानाहङ्करो दिवैश्वा नरमिदाय चायज्ञमित्याह वैश्वा नरगुम् हि देव दयाजुर्भयतो वैश्वानरोष्यते तस्मात् भजतः प्राणाधस्ताच्चपरिष्टाच्चार्थिमाण्ये गृहागृह्यन् तेऽर्ध्ये दुवस्तस्मादर्ध्य प्राणो न्यग्राह प्राणामुपो तेन ग्रहासाध्यं ध्रुव साध्यते धृत्या आयुर्वादेतद्यज्ञस्य यद्ध्रुव आत्माहोतासे ध्रुवमवनयत्यात्मन्येव यज्ञस्यापि पुरस्तादुप्तस्या ध्यायुषो भुङ्क्ते मध्यतो मनीरयित्याहुर्मध्यमे नश्यायुषो भुङ्कवोत्तरार्धे मनीरजित्याहुरुत्तमे नश्यायुषो भुङ्क्ते वैरिष्वदे विजाया मम नयति वैश्वदे वै प्रजा सुजास्मे वायुर्दधादी यज्ञेन वैदेवाः सुवर्गं लोकमायन्ते नन्यन्तमनुष्यान्वा भविष्यन्ति ते संवत्सरेण लोकयुत्वा सुवर्गं लोगमायन्नग्रहैरेवाय प्राजानय ऋतुग्रहा गृह्यन्ते सुवर्गस्य प्रज्ञाः चेद्वादश गृह्यन्तेवत्सरस्य प्रज्ञा के सह प्रथमोष्येते सहोत्तमौ तस्माद्भौ ृदूपात्रितो हृदद् तिषट् कृत्वा आहषड्वा ऋतव ऋतो नैव प्रेमा चितुरिति चतुश्चतुष्पदयः पुनर्तुनाहद्विपदेव प्रेमा चितुना प्रेष्य तिषट् कृत्वा आहर्तुभिरिति चतुस्तस्माचतुष्पादः पशव ऋतोनुपजीवं दिद्भिः पुनर् ऋतुना तस्माद्विपाद श्चतपदः पशोनुपजीवन्ति चतुर्ध्यः पुनर्तुनाहाक्रमणमेव प्रसिद्धमेवाध्वज दक्षिणेन प्रपद्यते प्रसिद्धं मृदि प्रस्थातोत्तरेण तस्मादादित्य षण्मासो दक्षिणेणीति षडुत्तम गृहीतोऽसि सकम् सर्पोऽ स स्वर्गाय वादेते लोगाय गृह्यन्ते धृतग्रहा ज्योतिरिन्द्राग्नीयदैरिन्द्राग्नृतपात्रेण गृह्णाय ज्योतिरेवास्म उपदिष्टाद्दधातु सुवर्गस्य लोकस्यानुख्यात्यान्द्राग्नी वो जवावगृह्ण वैश्वदेवकं शुक्रवात्रे ण गृह्णादि वैश्वदेव्यो वै प्रजा असावादित्यशुक्रो यद्वैश्वदेवकं शुक्रवात्रेण गृह्णादितस्मादसावादित्यः सर्वाः प्रजाः प्रत्यमुदे तस्मात् सर्वदेवमङ्गदे मां प्रत्युदगादिति वैश्वदेवकं शुक्रवात्रेण गृह्णादि वैष्वदेव्यो वै प्रजास्तेज स्वदेवतुम् शुक्रमात्रेण गृह्णाति इन्द्रो मरुद्भिः सां विद्ये तस्य वृत्तपात्रेण मरुत्वदीरा न गृह्णात्ततो वै स ऋतोन् प्राजानात् ऋतुपात्रेण मरुत्वदीरागृष्यन्त ऋतोनाम्रज्ञाः चैवज्रम्बाजे य प्रहरति जन्मरुत्पदी गायुदेव प्रथमेन यच्छति प्रहरति द्वितीयेन मरुत्पदी जाधनुरेव प्रथमेन धत्ते विसृजति द्वितीयेन गच्छति दतीरेन्द्रो हत्वा परां परावतमगच्छद पाराधमिति मन्यमानस्स हरितो त्मस्मरणानमश्च गृह्णीत प्राणमेव प्रथमे नाः शृणुदाभां दृतिरनात्मानं धृते स्य गृह्यं देजन्मरुत्वदीया प्राणमेव प्रथमेन स्पृणुते पानं कृनात्मानं द्वितीरेणेन्द्र वृत्रमहन्तं देवा अभ्रुवन् महान् वा अजमभोज्यो वृत्रमवधे तन्महेन्द्रस्य महेन्द्रत्वकं सदेकं माहेन्द्रमुद्धारमुदहरन वृत्रगं देवतास्वधि जन्मा हेन्द्रह्यत बुद्ध्यानमेवत यजमान बुद्धरतेऽ्या शुक्रजाश्व शुक्रपात्रेण गृह्णाति यजमानदेवत्यो मेमाहेन्द्रस्तेज शुक्रो जन्मा हेन्द्रगो स्या उच्छात्सारे आदित्यां सन्धयसादित्येभ्यजेव ्रुवन्वरं वृणाम हैयोतोजायातास्मा कुंसयेको सद्योऽस्य प्रजाया मृध्यातास्मा भोगाय भवादिजितो विवस्वानादित्योजाय ततस्य वादिजं प्रजा यन्मृष्यास्तास्वेक एव भो यो यजते स देवानां भोगादि भवति देवा वैयज्ञा रुद्रमन्तरायान् स आदित्यान्वाक्रमतते द्यन्ततान्न प्रतिप्रायच्छन्तस्मादपि तस्मादित्योषणादजायन्तर्ग्रन्थादिमातापिता पुत्रस्तदेवदन्मिथुनं पशून धा जतास्माजामापक्वं दु दे दश गो वात्यः परिश्रित्य गृह्णादि प्रतिरुध्यैवास्मै रसो गृह्णादिवश गोवायते यदादित्यजेष्ठद्राजदः परिश्रित्य गृह्णादि रुद्रादेव पशो नन्दर्दधात् लेखवे स्वानादित्यो विदुपातुं सुसवनः सेत आकृतिजसवस्व आदित्य ीयित्या हरिवस्वन्द्रोष्टेणामेति वृष्टिकामश्चेणीकः पर्जन्यस्याद्यति चिरमवृषको नो नव षट्कुरु अन्वसृषेन्न हुत्वा ेक्षेदचक्षुरस्य प्रमाजपद्गस्यात् तस्मान्नान् वीक्ष्यः अन्तर्जामपात्रेण साभित्रमा ग्रयणा गण्ठादिप्रजापचर्वा जषयदा ग्रयणः प्रजानाः मृजनमागमसा जयत्यसन्नाद्य प्रजास्प्रजायन्तेनानवषट्करो जयत नव षट् कुरु या गृग्रम् अन्वसृजयेषायत्रो देवाना गृह्णाति स्वादेवै नैजे निर्गृह्णाति विश्वेदेवा श्रुतिरघुं सवनं नोदयच्छन्ते सवितारं राजसवनभागुं सन्तं तृतीयै च धृती यत् तृतीयसर्वणे सावित्रो गृह्यते तृतीयस्य सवणस्याजे सवितपात्रेण वै स्वदेवं नलसा गृह्णादि वैश्वदेव्यो वै प्रजा वैश्वदेवः कलशस्य ग्रन्थाति समितप्रसूदयेवास्मि प्रदनयति सोमे सोममधिग्रन्थातिरेतदेव तद्दधाप्रतिष्ठानयित्याह सोमेभि सोममपि गृह्णातिप्रतिष्ठित्या एतस्मिन्वारिग्रहे मनुष्येभ्यो देवेभ्यः पृथिभ्यः क्रियते सुप्रतिष्ठानयित्याह मनुष्ये देवैत्य दे नगरोति बृहदित्याः देवेभ्य देवेते दे नगर दि नजित्याः पितृभ्य देवैतनगरोत्येतावति दे वैदेवकास्ताभ्य देवैरम् सर्वाभ्यो लण्ढात्येतदेवयो प्राणो वा देशयुदुपाघुं सुयुद्वाघुं सुपात्रेण प्रथमस्तमश्च ग्रहो गृह्येते प्राणमेवानुप्रयन्ति प्राणमनुद्यन्ते प्रजापतिर्वा देशयदाग्रयणः प्राणवंशः पत्नी प्रजाः प्रजनयन्ति यदुपाघुंश पात्रेण पात्ने भवृह्णाति प्रजानाः प्रजनाय तस्माः प्राणं प्रजा इत इतः पत्नीसुवर्गं लागमधिगागुं सन्तेषु वर्गं लोकन्न प्राजानन्त एतं वा गृह्णततो वेदेषु वर्गं लोकं राजाननयत्पात्मेवर्गस्य लोकस्य प्रज्ञात्ये सो मोनातिष्ठत स्त्रीर्यो विह्यमानस्थं घृतं वर्जनं कृत्वा घृढन्मिरिन्द्रियं भोजम गृह्णन्तस्मात् स्त्रियोन्द्रिया पि पापास्थितं वदं निजज्ञात् ने पतज्ञश्रेणाति कृत्वा गन्धात्युपजाम गृहे दोसेत्याहेदं वा उपजामस्तस्मादिमाप्रजायन्ते बृहस्पतिसुतस्य तृत्याह ब्रह्मवे देवानां बृहस्पतिर्ब्रह्मणैवास्मै प्रजा प्रजनयति दोजित्याहरेन्दूरे तजैव तद्दधाति जित्याः प्रजा वाजिन्द्रियम् प्रजा देवास्मै प्रज नजत्यग्त्याहाग्निर्वेदक्रोधाः पत्नी रजित्याह मिथुनत्वार्यसजोर्देवेन प्रक्त्वा सोमम् पिबेत्या हष्टा वै पशूनाम् सपत्ने तन्न प्रति प्रायच्छन्दस्मादपि मध्यं प्रपन्न प्रति प्रयच्छन्ति तस्मात् सादयत्यसन्नाद्य षट्कुरु याद्ं प्रजा अन्वसृजयन्ना नव षट् कुरु यादसाहन्तमग्नेत्समं भक्षज्करो जनरुद्रं प्रजा अन्मृजति सान्त यत्तग्नेष्टुरुपस्थमासीधनेष्टः पत्नी मुदा नेष्टिनेष्टा पत्न्यामुद्गात्रा संख्यापयति प्रजापदुर्वाजेषु गाता प्रजानाहं प्रजननायापव प्रवर्तयति रेतजे पदत्सिञ्चत्योरुणो बप्रवर्तयत्योरुणा हिरे तस्य चतुर्नग्नृत्यौरव प्रवर्तयति जयाहिनऊर्व भवत्यथ मिथुने भवतोऽथरे तस्य चते छ प्रजायन्ते इन्द्रवित्रमहन्तस्य शेषकपालमुदौत्सद्रोणकलश भवत्तस्मात्सो मत्सहास भवतु माहौषा मन्यष्याम्यामगुम्भो ओश्यामि होष्यामिकरिष्यामि चितं सोऽरभ्रवेन्नमय्यामगुम्हो ओश्यसे चितं धानाभिरश्रेणात्तं सतं भोतमजभो यद्धानाभिरहाय्यश्रेणातिश्रधत्वाय श्रितमेवश्रेणात्येकावधिरेव खल्वाह्वेता मा इन्द्रस्य विष्णजस्तामधुघायद्धारियोज तस्माद्बह्वेभिसृत्स्वामेवादिन्द्रस्य हरे सोमपानोतयो परिथज आधामयदप्रहृत्य परिचेञ्जुभयादन्तराधानाभ्यां घासं प्रयच्छेत् प्रहृत्य परिधेञ्ज हो तु निराधानाभ्यामेव घासं प्रयच्छत्युं नेताज होति यातयामेव यजुहजाद्यथानर्विरक्तिपादृगेव निधाय जहोदिशेषमभवद्विक्रम्यजुहोदि विक्रम्यहेन्द्रमहा समृद्ध्ये पशवो वैहारियो जनेसं भिन्द्यादल्पायनं वसवो भुञ्जन्तमुपदेक्षणयन्नसं भिन्द्याद्पहायनं पशव भुञ्जन्तमुपजक्षेमहवैयं पुन् प्रतिष्ठा नयन्ति अनुप्रजाः पशवः प्रजायन्त उपाविश्व आदित्य ग्रहं व्याव आदित्य ग्रहो भोजिष्ठाधिर्गृह्यते तस्माद्व्यावः पशूनां भोजिष्ठाय त्रि नृपागुं सुंहस्तेन विगृह्णाति तस्माद्वोत्री न जायत्यथावयोजो भोजसेः पिता कलसो यदा ग्रहणमुपदस्य कलसाद् गृह्णे याद्यथा पिता पुत्रं क्षित उपधामदि तादृगेव तद्यत्कलश उपदस्य दाग्रहणाद् गृह्णे याद्यथा पुत्रः क्षित उपधामदि तादृगैवतदात्मा वा जेष यज्ञस्य यदा ग्रहणो यद्ग्रहो वा कलशो वोपदस्य दाग्रहणाद् गृह्णे जादात्मनजैवाधिष्ठातो वा जेष ृह्यते लदाग्रेण स्थाल्या बृह्माति वाजबुजेन जुहोति तस्माद्गर्भेणाभिज्ञातेन ब्रह्महापुरुषमवयन्ति परा स्थालेरस्युद्वाजबुजानि हरन्ति तस्मात् स्त्रियन्तापां परास्युत्पुमागुं सगुं हरन्ति यत्पुरोनुचमाहय तापस्य स आहरति तादृशेव तद्यद्ग्रहं गृह्णाति यथापस्य स आहृत्य प्राह तादृदेव तद्यत् साधयति धाय वक्रामधिकालिवैयज्ञस्य सा मायुजुषा तृजिशिलम् तद्यदृचा तद्गृहम् हस्तादुपया मायुजुषा ऋगन्तमुपरिष्टादुपयामायुषारिज्ञस्य धृत्यये ण्यानि पात्राणि युज्यन्ते नान्यानि यानि वराजीनानि प्रयुज्यन्ते ममेव दये पराणि वह्यसौ लोको यानि पुनः प्रयुज्यं क इमेव दये लोकमभिजगति पुनः पुनरिवह्यं युज्यन्ते नान्यानि यानि वराजीनानि प्रयुज्यन्ते तान्यन् वोषधजः पराभवन्ति यानि पुनः पुनराभवन्ति ान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराजेनानि प्रयुज्यन्ते तान्यन् वारण्याः पशवोरण्यमपयन्ति कानि पुनः प्रयुज्यन्ते तान्यनुग्राम्याः पशवो ग्राममुपावयन्ति गो वै ग्रहाणां निदानं व्यज निदानवान् हाणां निदानैजवान् भवणां विद प्रजया वसुभिर्मिशमैर्जायते स्थालिभिरण्ये ग्रहा गृह्यन् देवायव्यैरन्य एतद्वै ग्रहाणां विशनैजैवं वेद प्रजया वशुभिजायत इन्द्र स्पष्टमभेपत्स विश्वं याच्छत्स आत्मन्ना रमणन्नाविन्दत्स दे नुसवनं पुरोडाशानलस्य पत्तैर्वै स आत्मन्नारमनमकुरु तस्मादनुसवनं पुरोडाशा निरुत्यन्ते तस्मादनुसवनं पुरोडाशानां प्रास्मीरादात्मन्नेवारमणं कुरु पदे ब्रह्मवादिनार्चानयजुधापङ्क्तिराप्यते छकिं यज्ञस्य परिभापः पुरोडाशः यस्याजेन पङ्क्त्या हाप्यते तद्यज्ञस्य वान्तत्त्वम् ओ